तस्य शङ्खस्य शब्देन सागरश्चुक्षुभे भृशम् ररासचनभः सर्वम् तच्चित्रमभवत्तदा पाञ्चजन्यस्य निर्घोषम् निशम्यकुकुरान्धकाः विशोकाः समपद्यन्तगरुडस्य च दर्शनात् शङ्खचक्रगदापाणिम् सुपर्णशिरसि दृष्ट्वा जहृषिरे कृष्णम् भास्करोदय तेजसम् ततस्तूर्यप्रणादश्च भेरीणाम् च महास्वनः सिंहनादश्च सञ्जज्ञे सर्वेषाम् पुरवासिनाम् ततस्ते सर्वदाशार्हाः सर्वे च कुकुरान्धकाः प्रीयमाणाः समाजग्मुरालोक्य मधुसूदनं वासुदेवं पुरस्कृत्य वेणुशङ्खरवैः सह उग्रसेनो ययौ राजा वासुदेवनिवेशनम् पर्यचरन् स्वेषु वेश्मसु देवकी रोहिणी चथोदेशुक स्त्रिय हता ब्रह्म द्विष्व जयंधकृष्णय